मुण्डकोपनिषत् शान्तिपाठः ॐ भद्रं कर्णेभिः देवाः भद्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यसेमदेव हि दै यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधादु ॐ शान्तिः शान्ति शान्तिः अथ प्रथममुण्टकम् प्रथमःखण्डः ॐ ब्रह्मदेवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामधर्वाय ज्येष्ठपुत्राय प्राह अधर्वणे प्रवदे दब्रह्मधर्वादां पुरो वाचां गिरेब्रह्मविद्यां स भारद्वाजाय सत्यवहायप्राह भारद्वाजोङ्गिरसे परा वराम् क्षौनकोह वै महाशालोङ्गिरसंविधिवदुपसन्न पप्रच्छ कस्मिन्नु भगवो विज्ञादे सर्वमिदं विज्ञातं भवतीति तस्मै स उवाच द्वे विद्ये वेदितव्ये इति हस्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च तत्रापरा ऋग्वेदो यजुर्वेदसमवेदो धर्ववेदशिक्षा कल्पो तदक्षरमधिगम्यते यत्तद्द्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगदं सुसूक्ष्मं तदव्ययै यद्भूतयोनिं परिपश्यन्ति धीराः यथोर्ननाभिसृजदे गृष्णतेज जयथा पृथिव्या मोषधयत्सम्भवन्ति यथा सदः पुरुषात्केश लोमानि तथा क्षरात्सम्भवतीह विश्वम् तपसा चीयते ब्रह्म ततोऽन्नमभिजायते अन्नात् प्राणो मनः सत्यल्लोकाकर्मसु चामृतं यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयन्तपः तस्मादे दद्ब्रह्म नामरूपमन्नञ्च जायते अध प्रथममुण्डकन् द्वितीयः खण्डः तदेतत्सत्यं मन्द्रेषु कर्माणि कवयो यान्यपश्यं स्थानित्रेदायां बहुधा सन्ततानि तान्याचरधनियदं सत्यकामा येष वः पन्था सुकृतस्य लोके यदा लोलायदे हव्यवाहने ह्यर्चिस्समिद्धेहव्यवाहने तदाज्यभागावन्तरेणाहुदि प्रतिपादयेत् यस्याग्निहोत्रमदर्शमपौर्णमासमचादुर्मास्यमनाग्रयणमधिवर्जितञ्च अकुतमवैश्वदेवमविधिना कुदमासप्तमांस्तस्य लोकान् हिनस्ति काली कराली च मनोजवा च सुलोहिताया च शुद्धूम्रवर्णा सुलिङ्गिनी विश्वरुची च लेलायमाना यदि सप्तजिह्वाः एतेषु यश्चरदेभ्राजमानेषु यथाकालञ्चाहुतयोन् तन्न यन्त्येता सूर्यस्य रश्मयो यत्र देवानां पदिरेकोधिवासः येह्येही दीतमा हृदयसुवर्चसूर्यस्य रश्मिभिर्यजमानं वहन्ति प्रियां वाजमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः प्लवाह्ये अदृढा यज्ञरूपा अष्टादशोक्मवरयेष्कर्म ये दच्छ्रेयो येभिनन्दन्ति मूठा जरा पुनरे पुनरेवापियन्ति अविद्यायामन्तरे वर्तमाना स्वयं धीरापण्डितं मन्यमानाः जङ्घन्यमानाः परियन्दिमूढा अन्धे नैव नीयमाना अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्य बालाः यत्कर्मिणो न प्रवेदयन्ति रागा तेनातुराः इष्टापूर्तं मन्यमानावरिष्टन् नान्यच्छ्रेयो वेद यन्ते प्रमुठाः नाकस्य पृष्ठे सन्ध्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्याञ्चरन्तः सूर्यद्वारेण ते विरजा प्रयान्ति यत्रामृतत्स पुरुषो ह्यव्ययात्मा परीक्ष्य लोकान् कर्मचिदान् ब्राह्मणो निर्वेदमायान्नास्त्यहृदकृतेन तद्विज्ञानार्थं स गुरुमे वा गच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् तस्मै सविद्वानुपसन्नाय विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय येनाक्षरं पुरुषं वेदसत्यं प्रोवाच तान्ततो ब्रह्मविद्याम् तदे तत्सत्यै यथा सुदीप्तात् पावकाद्विस्फुलिङ्गात्सहस्रश प्रभवन्ते सरूपाः तथा क्षराद्विविधा सोम्यभावाक् प्रजायन्ते तत्र चैवापि यन्ति दिव्योह्यमूर्तः यदस्मा जायदे प्राणो मनःसर्वेन्द्रियाणि च कं वायुर्ज्योधिरापः पृथिवी विश्वस्य धारिणी अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिश्रोत्रे वाग्िवृदाश्च वेदाः वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवीक्ष्येष सर्वभूतान्तरात्मा तस्मादग्निः अग्निसमिधो यस्य सूर्यः सोमात् पर्जन्य ओषधयःपृथिव्याम् पुमान्ते तस्मिन् चधियोषितायां बह्वी प्रजापुरुषात् सम्प्रसूताः तस्मादृजत्समयजोंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च संवत्सरश्च यजमानश्च लोकात् सोमो यत्र पवते यत्र सूर्यः तस्माच्च देव बहुधा सम्प्रसूता साध्या मनुष्या पशवो वयांसि प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च सप्त प्राणा प्रभवन्दि तस्मात् सप्तार्चिषः समिधः सप्त होमाः सप्त इमे लोकायेषु चरन्ति प्राणा निहिता सप्त सप्त अतः समुद्रागिरयश्च सर्वे स्मात्स्य दन्दे सिन्धवः सर्वरूपाः अतश्च सर्वापोषधयोरसश्च येनैश भूतैस्तिष्ठते ह्यन्तरात्मा पुरुषयेवेदं विश्वं कर्म तपो ब्रह्मपरामृदम् ये दद्यो वेदनिहिदङ्गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य अधद्वितीयमुण्डकं द्वितीयः खण्डः आविस्सन्निहितं गुहाचरन्नाममहत्पदमत्रैतत्समर्पितम् येजत्प्राणन्निमिषश्च यदेतज्जानदशदशद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानां यदर्चिमद्यधनुभ्यो दनुभ्योनुच च यस्मिल्लोका निहिता लोकिनश्च तदेतदक्षरं ब्रह्मसप्राणस्तद्वाङ्मनः तदेतत्सत्यं तदमृदन्तद्वेद्धव्यं सौम्यविद्धि धनुर्गृहीत्व उपनिषदं महास्त्रं शरं ह्युपासनिषिधं सन्धयीत आयम्यतत् भावगप्तेन चेतसा लक्ष्यं तदेवाक्षरं सौम्यविद्धि प्रणवो धनुसरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेद् यस्मिन् द्यौःपृथि॒वी चान्तरिक्षमोदं मनः सह प्राणैश्च सर्वैः तमे वै कनध आत्मानमन्या वाचो मृतस्यैष सेतुः अरा इव संहता यत्र नाड्यस्य एषोऽधश्चरदे बहुधा जायमानः ॐमित्येव्याय धत्मानं स्वस्ति वः पाराय तमः स परस्ताद दिव्ये ब्रह्मपुरेह्ये श्रव्यो ज्ञात्मा प्रधिष्ठितः मनोमयः प्राणशरीरनेधा प्रधिष्ठितोन्ने हृदयं सन्निधाय तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममममृतं यद्विभाति भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे हिरण्मये परे कोशे विरजं ब्रह्मनिष्कलं तच्छुभ्रं ज्योदिशान्त्योदिस्तद्यदात्मविदो विदुः न तत्र सूर्यो भाधि न चन्द्रतारकन्ये मा विद्युदो भान्दिकुतोऽयमग्निः तमेव भान्दमनुभाधि सर्वन्तस्य भासा सर्वमिदं विभाति ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण अधश्चोर्ध्वं च प्रसृतं वेदं विश्वमिदं वरिष्ठम् अध तृतीयमुण्डकं प्रथमः खण्डः द्वासुपर्णासयुजा सखाया समानं वृक्षं परिशस्वजाते। सयोरन्यपि पदं स्वाद्वत्यनश्नन्नन्योऽभिचाकशीति समाने वृक्षे पुरुषो निमग्नो निशया शोचति मुह्यमानः पश्यत्यन्यमीशमस्य महिमानमिति विदशोकः यदा पश्यते रुक्मवर्णं कर्ता पुरुषं ब्रह्मयोनिं तदा पुण्यपापे विधोयनिरञ्चनः परमं साम्यमुपैति प्राणोह्येष यः सर्वभूतैर्विभादि विजानन् विद्वान् भवतेनादिवादि आत्मक्रीड आत्मरधिक्रिया वाणेशब्रह्मविदां वरिष्ठः सत् त्येन लभ्यस्तपसाख्येष आत्मा सम्यग् ज्ञानेन ना नित्यम् अन्तःशरीरे ज्योतिर्मयो हि शुभ्रोऽयं पश्यन्ति यत यः क्षीणदोषाः सत्येन पन्था विदतो देवयानः येनाक्रमन्ध्यर्षयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् बृहच्च तद्दिव्यमचिन्त्यरूपं विभाति दूरात्सु दूरे तदिहान्दिके च पश्यत्स्विहैवनिहितं गुहायाम् न चक्षुषा गृह्यतेनापि वाचा नान्यैर्देवाैस्तपसा कर्मणा वा ज्ञानप्रसादेन तस्तुतं पश्यते निष्कलं ध्यायमानः एषोऽनुरात्मा चेदशा वेदितव्यो यस्मिन् प्राणः पञ्चधात् प्राणैश्चित्तं सर्वमोदं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा यल्लोकं मनसा संविभाधि विशुद्धसध्वकामयदे यांश्च कामान् तन् तल्लोकं जयदे तांश्च कामांस्तस्मादात्मज्ञां ह्यर्चयेद्भूदिकामः अथ तृतीयमुण्डकं द्वितीयः खण्डः स वेदैदत्परमं ब्रह्मधाम यत्र विश्वन्निहितम्भाधिशुभ्रम् उपासदे पुरुषैये ह्यकामास्ते शुक्रमे ददधि वर्तन्ति धीराः कामान्यःकाम यदे मन्यमानस्य कामभिर्जायते तत्र तत्र पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कमाः नायमात्मा प्रवचनेन लभ्यो न मे धया बहुनाश्रुतेन यमे वैश वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनों स्वाम् नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपशो वाप्यलिङ्गाद् यदैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशदे ब्रह्म धाम सम्प्राप्यै न मृषयो ज्ञानतृप्ता कृदात्मानो वीदरागा प्रशान्ताः ते सर्वं सर्वदप्राप्य धीरा योक्तात्मानः सर्वमेवाविशन्ति वेदान्तविज्ञानसुनिश्चितार्तासन्न्यासयोगाध्यदयशुद्धसत्वाः ते सत्वाः परान्तकाले परामृधा परिमुच्यन्ति सर्वे गधा कला गधाला पंचदश्रतिष्ठा सर्वे प्रतिदेवतासु कर्माण विज्ञानमच आत्मा यथा परेकी भविध्य सुद्रे स्में वि तथा विद्वान्नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यं। स यो ह वै तत्परमं ब्रह्मवेदब्रह्मैव भवति नास्या ब्रह्मवित्कुले भवति तरदि शोकन्तरदि पाप्मानङ्गुहा ग्रन्थिभ्यो विमुक्तो मृदो भवति तदेतदृचाभ्युक्तं क्रियावन्दश्रोत्रिया ब्रह्मनिष्ठा स्वयं जुह्वे कर्षिं श्रद्धयन्तः तेषा मे वैतां ब्रह्मविद्यां वदेद शिरो व्रतं विधिवध्यैस्तु चीर्णं तदेतत्सत्यमृषिरङ्गिराप्रोवाच नैतदचीर्णव्रदोधीते नमः परम ऋषिभ्यो नमः परमऋषिभ्यः शान्तिपाठः ओम् भद्रं कर्णेभिः देवाः भद्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिः व्यसेमदेव हितै यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्ख्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधादु ॐ शान्ति शान्तिः